संहितापाठम् पुनन् पुनन्दुमान्दे॒वजनाः पुनन्द्वसवो धिया विश्वेदेवाः पुनीतमाजातवेदः पुनीहि मा पुनन्तु मां देवजनाः पुनन्तु असवो धिया विश्वे देवाः पुनीतमा जातवेदः पुनीहि